श्रीमद्भागवत महापुराण द्वादश स्कंधोध्या की परम गति जन्मेजय का सर्प और वेदों के शाखा भेद शोचुवाच एक नात परीक्षत्मजन निखिलात्मदा शन तत्पादमूलमुपशेद्य न तेन मृष्याबद्धाञ्जलि तमिहृदं मिलमाह स विष्णुरात् राजुवाच सिद्धोऽस्मि अनुगृहीतोऽस्मि भवता करुणात्मनां श्रावितो यच्च मे साक्षात् अनादिनिश नो हरिः नात्यद्भुतमहं वन्ये महतामर्च्युतात्मना अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रह पुराणसहितामेताम् अस्रोस्म भवतो वयं यस्यां खलुत्तमश्लोको भगवान् अनुवर्ण्यते भगवन्तक्षकादिभ्यो मृत्युभ्यो न विभेभ्यम् प्रविष्टो ब्रह्मनिर्वाणम् अभयं दर्शितं त्वया अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्यथोक्षजये मुक्तकामाशयं चेत् प्रवेश्य विसृजाम्यसुन् अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया भवता दर्शितं क्षेमं परं भगवतपदं श्रोत्वाच इत्युक्ततमनुज्ञाप्य भगवान् बादराजिः जगामभिक्षुभिषाकं नरदेवेन पूजितः परीक्षेदपि राजर्षि आत्मन्नात्मानमात्मना समाधाय परं दध्या वस्पन्दासुर्यथा तरुः प्राक्कूले बर्हस्यासीनो गङ्गाकुलौ लङ्मुख ब्रह्मभूतो महायोगि निसङ्गे छिन्नसंशयः तक्षकप्रहितो विप्राक्रुद्धेन द्विजसूनिनां हन्तु कामो लिपं गच्छन्त धर्शपति कश्यपं तं तर्पयित्वा द्रविणेर्निवर्त्य विषहारिणं द्विजरूप प्रतीक्षन्न कामरूपो ब्रह्मभूतस्य राजर्षे देहो हि गरुलाग्निनां बभूव भस्मसा पश्यतां सर्वदेहिनाम् आहाकारो महानासीन् दुःखे दिक्षु सर्वतः निःस्मृता ह्य सर्वे देवासुरनरादयः देवदुन्दुभयो ने दुर्गन्धर्वाप्सरसो जगुः वा वृषो पुष्पवर्षाळेव भुता साधु बाधितः जन्मे जयं स्वपितरं श्रुत्वा तक्षकभक्षितं यथाजुभावसङ्क्रुद्धो नागान् सत्त्वे सहद्विजये सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरनां महोरगान् दृष्ट्वेन्द्रम्भयसंविघ्न तक्षकशरणं जयौ अपश्यन्तक्षकं तत्र राजा पारिक्षितो द्विजान उवाच तक्षकस्मान्न दह्येतोरगाधमः सङ्गोपा इति राजेन्द्रशक्रशरणमागतं तेन संस्तम्भितसर्प तस्मानाग्नौ पदत्यसौ पारीक्षिति श्रुत्वा प्राहत्वेज उदारधी सहेन्द्र तक्षको विप्रान्नाग्नौ किमिति पाद्यते तत्र त्वा जुहुर्विप्रा सहेन्द्रं तक्षकं मखे तक्षकासु उपतस्पेह सहेन्द्रेण मरुत्वताम् इति ब्रह्मादिताक्षेपै स्थानादिद्र प्रचारितः बभूव सम्भ्रान्तमती सविमान स तक्षकः तं पतन्तं विमानेन सह तक्षकमम्बुतां मम्बरात् विलोक्या गिरस प्राह राजानं तं बृहस्पतिः नैष मनुष्येन्द्र वर्धमर्हति सर्पराट् अरेदपीतम् अमृतं अथ वा अजरामरः देवितं मरणं जन्तोर्गति स्वेनैव कर्मणा रजस्ततोऽन्यो प्रदाता सुखदुःखयोः सर्पचौराग्निविद्युद्भ्यं क्षुद्विद्व्याध्यादिभिरृप पञ्चत्वमृच्छते जन्तुर्भुङ्क्त आरब्धकर्मतां तत् तस्मात् सत्रमिदं राजन् संसीयेताभिचारिकम् सर्पा अनागसो दग्धा जनैर्दिष्टम् हि भुज्यते